धचतुःपञ्चाशः सर्गः स्वबलस्य च घातेन अंगदस्य बलेन च राक्षसः क्रोधमाविष्टो महाबलः विस्फार्य च धनुर्घोरम् शक्राशनि समप्रभम् बाणराणामनीकानि प्राचिरच्छरवृष्टिभिः राक्षसाश्चापि मुख्यास्ते रथेषु समवस्थिताः नानाप्रहरणाः शूराः प्रायुध्यन्त तदारणे वानराणाम् च शूरास्तु ते सर्वे प्लवगर्षभाः अयुध्यन्त शिलाहस्ताः समवेताः समन्ततः तत्रायुधसहस्राणि तस्मिन्नायोधने भृशम् राक्षसाः कपि मुख्येषु पातयाञ्चक्रिरे तदा वानराश्चैव रक्षस्व गिरिवृक्षान् महाशिलाः प्रवीराः पातयामासुर्मत्तवारणसन्निभाः शूराणाम् युध्यमानानाम् समरेष्वनिवर्तिनाम् तद्राक्षसगणानाम् च सुयुद्धम् समवर्तत प्रभिन्नशिरसः केचिच्छिन्नैः पादैश्च बाहुभिः शस्त्रैरर्जितदेहास्तु रुधिरेण समुक्षिताः हरयो राक्षसाश्चैव शेरतेगाम् समाश्रिताः कङ्कगृध्रबलाढ्याश्च गोमायुकुलसङ्कुलाः कबन्धानि समुत्पेतुर्भीरूणाम् भीषणानि वै भुजपाडिशिरश्छिन्नाश्चिन्नकायाश्च भूतले वानराराक्षसाश्चापि निपेतुस्तत्र भूतले ततो वानरसैन्येन हन्यमानम् निशाचरम् प्राभज्यत बलम् वज्रदं स्त्रस्य पश्यतः राक्षसान् भयवित्रस्तान् हन्यमानान् प्लवङ्गमैः दृष्ट्वा सरोषताम् राक्षो वज्रदंष्ट्रः प्रतापवान् प्रविवेशधपुष्पाणि स्त्रासयन् हरिवाहिनीम् शरैर्विदारयामास कङ्कपत्रैरजिम्भगैः विभेदवानरांस्तत्र सप्ताष्टौ नवपञ्च च विव्याध परमक्रुद्धो त्रस्ताः सर्वे हरिगणाः शरैः सङ्कृत्तदेहिनः अङ्गदम् सम्प्रधावन्ति प्रजापतिमिव प्रजाः ततो हरिगणान् भग्नान् दृष्ट्वा वाविसुतस्तदा क्रोधेन वज्रदम्ष्टन्तमुदीक्षन्तमुदीक्षत वज्रदम्ष्ट्रोऽङ्गदश्चोभौ यो युध्येते परस्परम् चेरतः परमक्रुद्धौ हरिमत्तगजाविव ततः शतसहस्रेण हरिपुत्रम् महाबलम् जघानमर्म देशेषु शरैरग्निशिखोपमैः रुधिरोक्षित सर्वाङ्गो वालिसूनुर्महाबलः तम् वज्रदं वज्रदम् विक्रमं विक्रमम् प्लवगर्षभः विपुलं शैलं चिक्षे चिक्षेप चननाद दृष्ट्वा सरथादा रथादाप्लुत्यवीर्यवान् गदा पाणिरसम्भ्रान्तः पृथिव्याम् समतिष्ठत अङ्गदेन शिला गत्वा तुरणमूर्धनी स सा चक्रकूबरम् साश्वम् ततोऽन्यच्छिखरम् गृह्य विपुलम् द्रुमभूषितम् वज्रदंष्ट्रस्य शिरसि पातयामासवानरः अभवच्छोणितोद्गारी वज्रदंष्ट्रः सुमूर्च्छितः मुहूर्तमभवन्मूढो गदामालिङ्ग्य निःश्वसन् सलब्धसञ्ज्ञो गदया वालिपुत्रमवस्थितम् जघान निशाचरः गदाम् त्यक्त्वा ततस्तत्र मुष्टियुद्धमकुर्वत अन्योन्यम् जघ्नतुस्तत्र ताबभो हरिराक्षसौ रुधिरोद्गारिणौ तौ तु प्रहारैर्जनितश्रमौ बभोवतुः स्वविक्रान्ता बङ्गारकबुधाविव ततः परम उत्पाट्यवृक्षम् स्थितवानासीत् पुष्पफलैर्युतः जग्राहचार्षभम् चर्म खड्गम् च विपुलम् शुभम् किङ्किणीजालसञ्छन्नम् चर्मणा च परिष्कृतम् चित्रांश्चरुचिरान् मार्गांश्चेरतुः कपिराक्षसौ जघ्रतुश्च तदान्योन्यम् जयकाङ्क्षिणौ व्रणैः सास्त्रैरशोभेताम् पुष्पिता विवतिम् युध्यमानौ परिश्रान्तौ जानुभ्यामवनीम् गतौ निमेषान्तरमात्रेण अङ्गदः कपिकुञ्जरः उदतिष्ठत दीप्ता क्षोदण्डाहत इवो निर्मलेन सुधौतेन खड्गे नास्य महच्छिरः जघानवज्रदंष्ट्रस्य वालिसूनुर्महाबलः तच्च तस्य परीताक्षम् शुभम् खड्ग हतम् शिरः वज्रदम् श्रम् हतम् दृष्ट्वा राक्षसा भयमोहिताः त्रस्ता ह्यभ्यद्रवल्लङ्काम् मध्यमानाः प्लवङ्गमैः विषण्णवदनादीनाः क्रिया किञ्चिदवाङ्मुखाः निहत् गतम् वज्रधरः प्रतापवान् सवालिसो नुः जगा जगामहर्षम् महितो महाबलः सहस्रणेऽत्र त्रिदशैरिवावृतः इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुः सर्गः